अथैकोनत्रिंशः सर्गः अथतस्या प्रमेयस्य वचनम् परिपृच्छतः विश्वामित्रो महातेजा व्याख्यातुमुपचक्रमे इह राम महाबाहो विष्णुर्देव नमस्कृतः वर्षाणि सुबहूनिह तथा युगशतानि च तपश्चरणयोगार्थमुवाससुमहातपाः एष पूर्वाश्रमो राम वामनस्य महात्मलः सिद्धाश्रम इति ख्यातः सिद्धो ह्यत्र महातपाः एतस्मिन्नेव काले तु राजा वैरोच निर्बलिः निर्जित्य दैवतगणान् सेन्द्रान् सहमरुद्गणान् कारयामास तद्राज्यम् त्रिषु लोकेषु विश्रुतः यज्ञम् चकारसु महानसुरेन्द्रो महाबलः बलेस्तु यजमानस्य देवाः साग्निपुरोगमाः समागम्य स्वयम् चैव विष्णुमोचिर्हाश्रमे बलिर्वैरोचनिर्विष्णो यजते यज्ञमुत्तमम् असमाप्तव्रते तस्मिन् स्वकार्यमभिपद्यता ये चैनमभिवर्तन्ते याचितार इतस्ततः यच्च या यत्र यथावच्च सर्वम् तेभ्यः प्रयच्छति सत्त्वम् सुरहितार्थाय मायायोगमुपाश्रितः वामनत्वम् गतो विष्णो कुरु कल्याणमुत्तमम् एतस्मिन्नन्तरे राम कश्यपोऽग्निसमप्रभः अदित्या इवौजसा देवी सहायो भगवान् दिव्यम् वर्षसहस्रकम् व्रतम् समाप्य वरदम् तुष्टावमधुसूदनम् तपोमयम् तपो राशिम् तपो मूर्तिम् तपात्मकम् तपसा सुतप्तेन पश्यामि पुरुषोत्तमं। शरीरे तव पश्यामि जगत् सर्वमिदम् प्रभो त्वमनादिर्निर्देश्य स्वामहम् शरणम् गतः तमुवाच हरिः प्रीतः कश्यपम् वरय भद्रम् ते मम तच्छ्रुत्वावचनम् तस्य मारीचः कश्यपोऽब्रवीत् अदित्या देवतानाम् च मम चैवानुयाचितम् वरम् वरद सुप्रीतो दातुमर्हसि सुव्रता पुत्रत्वम् गच्छ भगवन्नदित्या मम चानघा भ्राता भवयवीयाम् स्त्वम् शक्रस्यासुरसूदना शोकार्तानाम् तु देवानाम् साहाय्यम् कर्तुमर्हसि अयम् सिद्धाश्रमो नाम प्रसादात्ते भविष्यति सिद्धे कर्मणि देवेश उत्तिष्ठ भगवन्नितः अथ विष्णुर्महातेजा अदित्याम् समजायत वामनम् रूपमास्थाय वैरोचनिमुपागमत् त्रीन्पदानथ भिक्षित्वा प्रतिगृह्य च मेदिनीम् आक्रम्य लोकान् लोकार्थी सर्वलोकहिते रतः महेन्द्राय पुनः प्रादा नियम्यबलिमोजसा त्रैलोक्यम् समः तेजाश्चक्रे चक्रवशम् पुनः तेनैव पूर्वमाक्रान्त आश्रमश्रमनाशनः मया विभक्त्या तस्यैव वामनस्योपभुज्यते एनमाश्रममायान्ति राक्षसा विघ्नकारिणः अत्र ते पुरुषव्याघ्रहन्तव्या अद्य गच्छाम हे राम सिद्धाश्रममनुत्तमम् तदाश्रमपदम् तात तवाप्येतद्यथा मम इत्युक्त्वा परमप्रीतो गृह्य रामम् सलक्ष्मणम् प्रविशन्नाश्रमपदम् व्यरोचत पुनर्वसुसमन्वितः तम् दृष्ट्वा मुनयः सर्वे सिद्धाश्रमनिवासिनः उत्पत्त्योत्पत्त्य सहसा विश्वामित्रमपूजयन् यथार्हम् चक्ररे पूजाम् विश्वामित्राय धीमते तथैव राजपुत्राभ्यामकुर्वन्नतिथिक्रियाम् मुहूर्तमथ विश्रान्तौ राजपुत्रावरिन्दमौ प्राञ्जलिमुनिशार्दूलमूचतु रघुनन्दनौ अद्यैव दीक्षाम् प्रविश भद्रन्ते मुनिपुङ्गवा सिद्धाश्रमोऽयम् सिद्धः स्यात् सत्यमस्तु वचस्तव एवमुक्तो महातेजा विश्वामित्रो महा ऋषिः प्रविवेश तदादीक्षान्नियतो नियतेन्द्रियः कुमारावपिताम् रात्रिमुषित्वा सुसमाहितौ प्रभातकाले चोत्थाय पूर्वान् सन्ध्यामुपास्य च प्रशुचिपरमम् जाप्यम् समाप्य नियमेन च हुताग्निहोत्रमासीनम् विश्वामित्रमवन्दता इत्यार्षे श्रीमद् वाल्मीकिये वाल्मीकीये आदिकाव्ये बालकाण्डे एकोनत्रिंशः